नारदपुराणम् पूर्वार्थम् अध्यायम् 117. अण्ड् सनातन उवाच शुक्लाष्टम्यां चैत्रमासे भवान्या प्रोच्यदे जनिः प्रदक्षिणशतं कृत्वा कार्यो यात्रा महोत्सवः दर्शनं जगदम्बायाः सर्वानन्दप्रदं नृणाम् अत्रैवा शोककलिका प्राशनं समुदाहृदम् अशोकलिकाश्चाष्टौ ये पिबन्दि पुनर्वसौ चैत्रे मासिताष्टम्यां न दे शोकमवाप्नुयुः महाष्टमीदी चप्रोक्ता देव्या पूजाविधानदः वैशाखस्य सिधाष्टम्यां समुपोष्यात्र वारिणा स्नात्वा पराजिता देवीं मांसी बालकवारिभिः स्नापयित्वार्च गन्धाद्यैर्नैवेद्यं शर्करामयम् कुमारीर्भोजये चापि नवम्यां पारणाग्रदः ज्योतिर्मयविमानेन भ्राजमानो यधारविः लोकेषु विचरेद्विप्रदेव्याश्चैव प्रसाददः कृष्णाष्टम्यां ज्येष्ठमासे पूजयित्वा त्रिलोचनं शिवलोके वसेत्कल्पं सर्वदेव ज्येष्ठशुक्ले तथाष्टम्यां यो देवीं पूजयेन्नरः सविमानेन चरदि गन्धर्वाप् सरसां गणैः शुक्लाष्टम्यां तथा शाठे स्नात्वा चैव निशाम्बुना तेनैव स्नापयेद्देवीं पूजयेच्च विधानदः तदशुद्धजलैस्नाप्य विलिम्पेत् सेन्दुचन्दनैः नैवेद्यं शर्करोपेदं दत्त्वा चमनमर्चयेद् भोजयित्वा ततो विप्रान् दत्वा स्वर्णं च दक्षिणां विसृज्यद ततः पश्चात् स्वयं भुञ्जीदवाग्यदः यद् व्रतं नर देवी लोकमवाप्नुयाद नभ शुक्ले तथाष्टम्यां देवीमिष्ट्वा क्षीरेण स्नापयित्वा चमिष्टान्नं विनिवेदयेद् तदोद्विजान् भोजयित्वा परेह्निस्वयमप्युद भुक्त्वा समा सन्दधिवर्धनं न भोमासे चिताष्टम्यां दशाफलमिति व्रतम् उपवासं सङ्कल्प्य स्नात्वा कृत्वा च नैतिकम् तुलस्या कृष्ण वर्णया दलैर्दश्यभिरर्चयेद् कृष्णं विष्णुं तदानन्दं गोविन्दं गरुडध्वजं दामोदरं ऋषिकेशं पद्मनाभं हरिप्रभुं येतैश्च नामभिर्नित्यं कृष्णदेवं समर्चयेद् नमस्कारं दद कुर्यात् प्रदिक्षिणसमन्वितम् एवं दशदिनं कुर्यात् प्रधानमुत्तमं व्रतम् आदौ मध्ये तथा चान्दे होमम् कुर्याद्विधानतः कृष्णमन्त्रेण जुहुयाच्चरुणाष्ठोत्तरम् शदं। होमान्दे विधिना साम्यगाचार्यम् पूजयेत् सुधिः सौवर्णे ताम्र पात्रे वा मृण्मये वेणुपात्रये तुलसीदलं सुवर्णेन कारयित्वा सुलक्षणं हैमीं च प्रतिमां कृत्वा पूजयित्वा विधानतः निधाय प्रतिमां पात्रे ह्याचार्याय निवेदयेद् दादव्या गौ सवत्साजवस्त्रालङ्कारभूषिता दशास्त्रं कृष्ण देवाय पूरिका च प्रदातव्यं यथा शक्तिद्विजोत्तम दशमेह्नि तद् व्रतान्ते दश विप्रभ्य प्रत्येकं दशपूजिका दद्यादेव दशाब्दं तु व्रदमनुत्तमं। व्रतमनुत्तमम् उपोष्य विधि न भूय सर्वकामसमन्वितः अन्ते कृष्णस्य सायुज्यं लभते नात्र संशयः कृष्णजन्माष्टमी च अयं स्मृता पापहरा नृणां केवलेनोपवासेन तस्मिन् जन्मदिने सप्तजन्मकृतात् पापान्मुच्यते नात्रसंशयः उपवासयति लैष्णादो नद्यादौ विमले जले सुदेशे मण्डपे कृप्ते मण्डलं रजये सुधीः तन्मध्ये कलशं स्थाप्य ताम्रजं वापि मृन्मयं तस्योपरिण्यसेत्पात्रं ताम्रं तस्योपरि स्थितम् हैमीं वस्त्रयुगाच्छन्नम् कृष्णस्य प्रतिमां शुभम् पाद्याद्यैरुपचारैस्तु पूजये स्निग्धमानसः देवकीं वसुदेवं च यशोदां नन्दमेवज व्रजं गोपांस्तदा गोपीर्गाश्च दिक्षु समर्चयेत् तदा आराधिकं कृत्वा क्षमाप्यानभ्यभक्तितः तिष्ठे तथैवार्धरात्रे पञ्चामृतैषुतजलैर्गन्धाद्यै पूजयेत् पुनः धान्याकं च या पानीं च शुण्ठीं खण्डं च नारद साध्यं रौके धृतं पात्रेण नैवेद्यं विनिवेदयेद् पुनरारार्तिकं कृत्वा दशधरूपधारिणं विचिन्तयन्मृगां गाय दद्यादर्क्यं समुध्य दे ततः क्षमाप्य देवेशं रात्रिकण्डं नये ध्वरदि पौराणि कैस्तत्रपाढय गिधगाद्यैरने कथा तदप्रभादे विप्रग्रियान् भोजयेन्मधुरान्नखैः दत्वा ज दक्षिणा तेभ्यो विसृजे तुष्टमानसः ततस्तां प्रतिमां विष्णोस्वर्णधेनुधरान्विताम् गुरवे दक्षिणां दत्त्वा विसृज्याश्रित स्वयं दारापत्य सुहृद्भृत्यरेवं कृत्वा व्रत नरः साक्षाद्गोकमाप्नो दिभिमान वरमास्थितः नैतेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये कृतेन येन लभ्येत कोट्यैकादशकं फलं शुक्लाष्टम्यां नभस्य कुर्याद्राधाव्रतं नरः पूर्वभद्राधिकां भैमिं कलशस्तां प्रपूजयेद् मध्याने पूजयित्वे नामेकभक्तं समापयेद् सक्तो भक्तस्योपवासं परेष्मिना तदः सुवासि निर्भोजयित्वा गुरवे प्रतिमार्पणं कृत्वा स्वयं जभुञ्जितं व्रतमेवं समापयेद् व्रतेनेन विप्रशे कृतेन विधिना हृदि रहस्यं गोष्टजं लब्ध्वा राधापरिहरे वसेदु वाष्टमी व्रतं जात्र कथितं तच्च मे शृणु शुचौ देशे प्रजातायां दुर्वायां द्विजसत्तमा प्राप्य लिंग गंध पुष्पैपैश्चीपक नैवेद्यचय्याद्यक्ष अर्ख्यम प्र दूजान्दे मंत्राभ्यां सुसम तां धूर्व मृतजन्मा सुरा सुर नमस्कृते सौभाग्यम सन्तस्यक्रीभव यदा शाखाप्रशाखाभिर्विस्तृतासिमहीतरे तदा विस्तृतसन्तानं देहि मेऽप्यजरामरं तदप्रदक्षिणीकृत्य विप्रान् संयोज्य तत्र वै भुक्त्वा स्वयं गृहं गच्छे दत्वा विप्रेषु दक्षिणां फलानि जप्रशस्तानि मिष्टानि सुरभीषिणी च दुरभीणि च एवं पुण्या पापहरा नृणा दुर्वाष्टमी द्विजा च दुर्नामपि वर्णानां स्त्रीजनानां विशेषतः यानपूजयदे दुर्वा यानपूजयदे दूर्वा नारी मोहाद्यथाविधि जन्मानि त्रीणि वैधव्यं लभते स न संशयः यदा ज्येष्ठर्क्ष संयुक्ता भवेज्जैवाष्टभी द्विज ज्येष्ठानाम्नी दुःसाज्ञेया पूजिताशिनी पावनाशिनी तु समारभ्य व्रतम् षोडचवात्सरम् महालक्ष्म्याः समुद्दिष्टम् सर्वसम्वद्विवर्धनम् करिष्यः महालक्ष्मीव्रतम् ते त्वत्परायणः दद विघ्नेन मे यादुसमाप्तिम् त्वत्प्रसादतः इत्युच्चार्य तदोबद्धा दोरकदक्षिणे करे षोडश ग्रन्थिसहिदं गुणायि षोटभिर्युतं ततोऽन्वकमहालक्ष्मीं गन्धाद्यैरर्चये ध्वरति यावत्कृष्णाष्टमी तत्र चरे दुत्यापनं सुधीः वस्त्रमण्डपिकाम् कृत्वा सर्वतो भद्रमण्डले कलश्यम् सुप्रतिष्ठाप्य दीपमुद्योत्तदः उत्तार्योरकम्बाहो कुम्भस्याधो निवेदयेद् च दस्रप्रतिमा कृत्वा सौवर्णे तत्स्वरूपिणीः स्नपनं कारये तासा जलैः पञ्चामृदयस्तथा उपचार्यैषोडशभिपूजयित्वा विधानतः जागर कर्तव्यो गीतवादित्र निस्वनैः तदो निशीधे सम्प्राप्तेभ्युदिदे मृदीधितौ दत्वार्घ्यं दा बन्धनं द्रव्यै श्रीखण्डाध्यायुर्विधानदः चन्द्रमण्डलसंस्थायै महालक्ष्यै प्रदापयेद् क्षीरोदार्णवसम्भूत महालक्ष्मीसहोदर पीयु श्रद्धामरोहिण्या सहितार्क्यं गृहाण मे क्षीरोदार्णवसम्भूते कमले कमलालये सर्वकामप्रदा भव जगनाथे जगन्नाथे जमदग्निप्रिये व्यये रेणुकेत्राहि देवी देवि राममादशिवं गुरु मन्त्रैरे धैर्महालक्ष्मीं प्रार्थ्य श्रोत्रिययोषितः सम्यक् सम्पूज्यत सम्यग् गन्धयावकज्जलैः संभोज्य सम्भोज्य जिहुयादग्नौ बिल्वपद्मकपायसैः तद लाभे कृतैर्विप्रगृहेभ्यः समिद्धस्थिलान् मृत्युञ्जय च परं सर्वरोगप्रशान्तये चन्दनं तालपत्रं च पुष्पमालां तदा क्षदान् दुर्वां कौसुम्भ सूत्रं च युगं श्रीफलमेव वा भक्ष्याणि जनवे शूर्पे प्रदिद्रव्यं तुषोदश समाच्छाद्यान्यशूर्पेण प्रदि समा दद्यात्सम्रकं क्षीरोदार्णवसम्भूता लक्ष्मीचन्द्रसहोदरा व्रते नानेन भवदा भवदाद्विष्णुवल्लभा चेतस्रप्रतिमास्तास्तु श्रोत्रि येभ्यः समर्पयेत् तदस्तु चतुरो विप्रान् षोडशा विसुवासिनीः मिष्ठान्नेनाशयित्वा तु विसृजेता स दक्षिणाः समाप्तिनियमपश्चाद्भुञ्जितेष्ठाय समन्वितः यद्व्रतमहालक्ष्म्या कृत्वा विप्रविधानदः भोक्त्वेष्ठा नैकिकान् कामान् लक्ष्मीलोकेवरं येष शोकाष्टमी शोक्ता यस्यां पूर्णं रमाव्रतम् अत्राशोकस्य पूजा स्यादेघभक्तं तथा स्मृतं कृत्वा शोकव्रतं नारीह्यशोकाशोकजन्मनि यत्र कुत्रापि सञ्जाता नात्र कार्या विचारणा अश्विनेषुक्लपक्षेतु प्रोक्ता विप्रमाष्टमी तत्र दुर्घटनम् प्रोक्तम् स वैराप्युपचरकैः उपवासं तत्रो मा सखिदशम्भुपूजनीयप्रयत्नतः चन्द्रोदयेऽर्कदानं च विधेयं प्रदिभिः सदा पुत्रं सर्व गुणोपेदमिच्छद्भिर्विविधं सुखं गोपाष्टमीदिशं प्रोक्ता कार्तिके धरे धने तत्र गुर्याद्गवं पूजं गोग्रासं गोप्रदक्षिणं गवानुगमनं दानम् वाञ्चन् सर्वाश्च सम्पदः कृष्णाष्टम्या मार्गशेषे मथुनं दर्भनिर्मृदम् अनकं चानकं तत्र बहुपुत्र समन्वितं स्थापयित्वा शुभे देशे गोमयेनो बलेपिदे पूजयेद्गन्धपुष्पाद्यैरुपचारैः पृथग्विधैः सम्भोज्य द्विज दाम्पत्यम् विसृज्यल्लब्धदक्षिणं व्रतं मेदन्नर कृत्वा नरीवाविधिपूर्वकं पुत्रं संलक्षणो भेदं लभते नात्र संशयः मार्गाशेषसिदाष्टम्यां कालभैरवसन्निधौ जागरं कृत्वा महापापैः प्रमुच्यते यत्किञ्चिदशुभं कर्म कृतं तत्सर्वं विलयं यादि कालभैरवदर्शनाद् पौष सिताष्टम्यां श्राद्धमष्टकसंहितं पितॄणां तृप्तिदं वशं कुलसन्दधिवर्धनं शुक्लाष्टम्यां तु पौषस्य शिवं सम्भुज्य भक्तितः भुक्तिमुक्तिमवाप्नोति समाचरन् कृष्णाष्टम्यां तु माघस्य भद्रकालीं समर्चयेद भक्तितो वैरीवृन्दग्नीं सर्वकामप्रदायिनीम् माघमासे सिधाम्यां भीष्मं सन्तर्पयद्विज संतदिं त्वव्यवच्चिन्नामिच्छं चाप्यपराजयं फाल्गुने त्वसिताष्टम्यां भीमां देवीं समर्पयेत् तत्र व्रतपरो विप्रसर्वकामसमृद्धये सुष्टम्यां फाल्गुनस्य शिवं चापि शिवां द्विजा गन्धाद्यै सम्यगभ्यर्च्य सर्वसिद्धीश्वरो भवेद् फाल्गुनापरपक्षुःशीतलामष्टमीदिने पूजये सर्वपक्कानैः सप्तम्यां विधिवत् हृदैः शीतले त्वं जगन्मादा शीतले त्वं जगत्पिता शीतले त्वं जगद्धात्री शीतलायै नमो नमः वन्देऽहं शीतलां देवीं राभस्तां दिगम्बराम् मार्जनी कलशोपेदां विस्फोटकविनाशिनी शीतले श्रीतरे सेद्धं यज्ञपन्दि जले स्थिताः तेषां तु शीतला देवी स्याद्विस्फोटकशान्दिदा इत्येवं शीतलामन्त्रायः समर्च यद्विजातस्य वशं भवो चान्द्रि शीतना या सर्वमासोभये पक्षे विधिवच्चाष्टमीदिने दिने शिवाम विशिवं प्रार्च्य लभदे वाञ्छितं फलम् इति श्रीभृतनारदीयपुराणे पूर्वभागे बृगदुपाख्याने चतुर्थपादे द्वादशमासस्थिताष्टमीव्रतकथनं नाम सप्तदशाधिकशततमोऽध्यायः ओम्